महाभारत आदिपर्व आस्तीकपर् आस्तीकर प्रदान पंचाशतमो अध्याय जन मे जय उच बालों स्थवीर इवा बंबस्थवि इच्छा्यहं वरमस्म प्रदेश विप्रा संवधं य सदस्यावूचुः बालोपि विप्रोमान्य मान्य इवे हराज्ञाम् विद्वान् यो वै, वै यथावत् सर्वान्कामास्त्वत्त एवार्हतेऽद्य यथा च शीघ्रम् सौतिरुवाच व्याहर्तुकामे वरदे नृपे द्विजम् वरम् वृणीष्वेति ततोऽभ्युवाच होतावाक्यम् नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् जनमे जय उवाच यथाचेदं चेदम् कर्म समाप्यते मे वैतक्षकयेति शीघ्रम् तथा भवन्तः प्रयतन्तु सर्वे परम् शक्त्या सहि ऋत्विज ऊचुः यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः इन्द्रस्य भवने राजंस्तक्षको भयपीडितः यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान् पुरस्तात् स राजानम् प्राह पृष्टस्तदानीम् यथाहुर्विप्रास्तद्वदेतन्द्रदेव पुराणमागम्यततो ब्रवीम्यहम् दत्तम् तस्मै वरमिन्द्रेण राजन् वसेहत्वं मत्सकाशे सुगुप्तो न पावकस्त्वाम् प्रदहिष्यतीति एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं होतारञ्चोदयन् कर्मकाले होता च कर्म यत्तोऽस्याजुहावाथमन्त्रैरथो महेन्द्र स्वयमाजगाम विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः बलाः कैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसाम् तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ततो राजा मन्त्रविदोऽ ब्रवीत् पुनः क्रुद्धो वाक्यम् तक्षकस्यान्तमिच्छन् जनमे जय उवाच इन्द्रस्य भवने विप्रायदि नागः तमिन्द्रेणैव सहितं पातयध्वम् विभावसौ सौ तिरुवाच जनमे जयेन राज्ञा तु नोदितस्तक्षकम् प्रति होताजुहावतत्रस्थम् तक्षकम् पन्नगम् तथा पूयमानो यथा